श्रीमद्भागवत् महापुराणम् दश चतुश्चत्वारिंशोऽध्यायः तथैव मुषिक पूर्वम् श्वश्चाभ्यतेव वै बलभद्रेण बलिनातलेनाभीहतोऽभृषम् प्रवेपित सलिधिमद्वम् यसोपपातोपस्थैवाताहते वाङ्पः ततः कूटमनुप्राप्तम् राम प्रहृताम् वरः अवधिलिलया राजन् सावज्ञम् वाममुष्टिनाम् तर्हैव हि शलकृष्ण शेषाप्रदृर्मः शेषा प्रदुर्द्रोर्मल्लाः सर्वे प्राणपरिशवः गोपान्वायस्यानाकृस्य तये संसज्य विजघ्रतुः वाद्यमानेषु तुर्येषु बलगन्तौ ऋतनूपरौ जना प्रजौषुषु सर्वे कर्मणा रामकृष्णयोः दृते कंसं विप्रमुख्या साधवशाधि साध्वीति अतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् निवार्य स्व्याणि वाक्यं चेदं उवाचह निसार्य तं दुर्वृत्तौ वसुदेवात्पजौ पुरात् धनं भरत गोपानां नन्दं बध्नी च दुर्मितिम् वसुतेवस्तुतिम् दुर्मेधा हन्यताम् अश्वसत् नमः उग्रसेन पिता चापि एवं विगत्थमाले वै कंसे प्रकृतो व्यः लङ्घिम् नोपद्य तरसा मञ्चमुत्तुङ्गमारुहत समाविसन्तमालोक्य मृत्युमात्मन मनस्भिः सहसोत्थाय जगृहेशोऽसिचरभळे तं खड्गपालिम् विचरन्तमाशु शेनं यथा दक्षिणस्रव्यमम्बरे शमग्रहे दुर्विषहोग्रतेजा यथोरगं ताक्षसुतः प्रसय्य प्रगय्य केशेषु चलद्गिङ्किरीटं निपातिरङ्गोपरितुङ्गमञ्चात् तस्योपरिष्टा स्वयमब्जुनाभ पपातविश्वासय आत्मतन्त्रः तं सम्परे तम् विचकर्षभूमौ हरि यथेभम् जगतो विपश्यत हा हेति शब्दसुमहासुदाभूदुदीरित सर्वजनैनरेन्द्र स नित्यतोद्विग्नधियातमेश्वरम् पिबन् वदन् वा विचरन् च पन्सन् ददर्शचक्रायुसमग्रतोय तदेव रूपं दुर्वापमाप तस्यानुजा भ्रातरोष्टौकन्याक्रोधकादयः अभ्यतामन्नभिक्रुद्धा भ्रातर्विषेककारिणः तथा तीरभसांस्तासु संयत्तान् रोहिणीसुत अहं परिगमुद्यम्य पशुनिव मृगाधिप ने दुर्जुन्दवयो व्योम्नी ब्रह्मेशाद्याभिभूतय पुष्पैकिरन्तस्तम् प्रीता ससंसुर्ने न श्रियः तेषां श्रियो महाराज श्रीन्मरणदुःखिताः तत्राभिर्यो विघ्नस्य शेषान्य श्रुविलोचनाः शयानाम् वीरशय्यायाम् पतीनालिङ्गि शोचतिः विरेपू सुस्वरम् नार्यो विसृजन्त्यो मुहुषु च हानाथ प्रियधर्मज्ञ करुणानाथवस्यल त्वया हतेन नेता वयम् ते स गृहप्रजाः त्वया विरहिता पत्या पुरीयम् पुरुषव न शोभते स्वमङ्गला अनागसाम् त्वम् भूतानाम् तेनेमाम्भूतसाम् नेतो भूतदुःखो नभिः सम सर्वेषाम् इहभूताराम्येष हि प्रभुवाभ्यः गोप्ता च तदवध्यायी न क्वचित् सुगमेधते शेषु उवाच द्राजयोषिताश्वास्य भगवान् लोकभावनः यामभूर्लौकिकीम् स्वां हतानाम् शमुकारयत मातरम् पितरम् चैव मोचयित्वाथ बन्धनात् कृष्णरामौ वन्दाते शेषास्विस्य पादयोः <laughs> देवकी वसुदेवस्य विज्ञाय जगदीश्वरौ कृतसंवन्दनौ पुत्रौ स स्वजातेन शङ्कितौ ये श्रीमद्भाकुते महापुराणे पारमसा चयितायां दधे पर्वाधे कंसवधोनाम चतशोध्याय